समीपतो भीममिदं शशासा प्रदीयतां पाद्यमर्घ्यं तथास्मै मान्यः पुरोधा द्रुपदस्य राज्ञः तस्मै प्रयोज्याभ्यधिका हि पूजा भीमस्ततस्तत्कृतवान्नरेन्द्र तां चैव पूजां प्रतिगृह्य हर्षात् सुखोपविष्टं तु पुरोहितं तदा युधिष्ठिरो ब्राह्मणमित्युवाच पाञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथा न कामात् प्रदिष्टशुल्का द्रुपदेन राज्ञा सा तेन वीरेण तथा न वृत्ता न तत्र वर्णेषु कृता विवक्षा न चापि शीलेन कुलेन गोत्रे कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण हि सा सेयं तथा नेन कृष्णा जिता पार्थिवसङ्घमध्ये नैवं गते सौमकिरद्य राजा सन्तापः अर्हत्य सुखाय कामश्च योऽसौ द्रुपदस्य राज्ञः स सम्पत्स्यति पार्थिवस्य सम्प्राप्यरूपां हि नरेन्द्रकन्याम् इमामहम् ब्राह्मण तथा न तद्धनुर्मन्दलेन शक्यम् मौव्यासमायोजयितुम् च कृतास्त्रेण न हीन लक्ष्यम् तथा ही ही न तापम् दुहितुर्निमित्तम् पञ्चालराजोऽर्हति कर्तुमद्य न चापि तत्पातनमन्यथेह कर्तुम् हि शक्यम् भुवि एवं ब्रुवत्येव युधिष्ठिरेतो पाञ्चालराजस्य समीपतोऽन्यः तत्रा जगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम् इति श्रीमहाभारते आदिपर्वणि वैवाहिकपर्वणि पुरोहित युधिष्ठिर संवादे